त्रिषु गोषु न शस्त्राणि पातयेद् ब्राह्मणेषु च यस्य चान्नानि भुञ्जीत यत्र च प्रतिश्रयः इति सन्तोऽनुशासन्ति सज्जनं धर्मिणः सदा भीष्मलोके हि तत्सर्वं वितथम् त्वयि दृश्यते ज्ञानवृद्धञ्च वृद्धं च भूयां संकेशवं मम अजानत इवाख्यासि संस्तुवन्कौरवाधम गोघ्नः स्त्रिघ्नश्च सन् भीष्म त्वद्वाक्याद्यदि पूज्यते एवं भूतश्च यो भीष्म कथं मरहती येश संभावयति कथम संस्तवर्हतिसमतिमताे यभु तत्सर्वमिति तत्सर्वं तत्स ध्रुवं न गाथा शास्ति बहुचेदपि गायति प्रकृतिं यान्ति भूतानि भूलिङ्गशकुनिर्यथा नूनं प्रकृतिरेषा ते जघन्यानात्र संशयः अतिपापीयसी चैषा पाण्डवानामपीष्यते येषामर्च्यतमः कृष्णस्त्वं च प्रदर्शकः धर्मवांस्त्वमधर्मज्ञः सतां मार्गादवप्लुतः